श्रीमद्भागवतमहापुराणं दशमस्कन्ध अस चिन्त्रिचत्वारिंशोऽध्यायः कुवळिया पीडिका उद्धार और अखाळे मे प्रवेश श्रीशुकुवाच अस कृष्णश्च रामश्च कृतशौचोपरन्तप मल्लदुन्दुभिर्निर्घोषं श्रुत्वा द्रष्टुमुपेयतुः रङ्गद्वारम् समासाद्य तस्मिन्नागमवस्थितम् अपश्यत्कुल्या पीडम् कृष्णोऽबष्ट प्रचोदितम् बद्ध्वा परिकरम् शौर्य समुह्य कुटिलालकान् उवाच हस्तिपं वाचा मेघनादगभीरया अम्बष्ठाम्बष्टमार्गन् नवो देह परक्रमपाचिरम् नो चेत् सकुञ्जरम् त्वाद्य नयाबीयमसाधनम् एवम् निर्भर्तितोऽम्बष्ठ कुपितो कोऽपि तम् गजम् चोदयामास कृष्णाय कालान्तकियमोपमम् करीन्द्रतमभिदृत्य करेण तरसा गृहीत कराद्विगलित सोमुम् निहत्याङ्घ्रीश्वलीयत सङ्क्रुद्धतमं चक्षालो घ्रादृष्टेश केशवम् परामृशत्पुरस्केण सप्रसय्य विनिर्गतः पुच्छे प्रगृह्यताम् प्रगृह्यातिबलम् धनुष पञ्चविंशतिम् विचकर्ष यथा नागं सुपर्ण इव लीलयाम् सपर्यावर्तमानेन सव्यदक्षिणतोचितः ब्रभ्राम भ्राम्यमाणेन गोवश्येनैव बालकः ततोऽभिमुखमभ्येत्य पाणिनाहत्यवारणम् प्राद्रवन् पातयामास स्पृश्यमान पदे पदे स धावन् क्रीडया भूमौ पतित्वा सहस्रोत्थितः तम् मत्वा पतितम् क्रुद्धो दन्ताभ्याम् शोहनच्छितिम् स्वविक्रमे प्रतिहते कुञ्जरेन्द्रो चमर्शितः चोद्यमानो महामात्र्यै कृष्णम् अभ्यद्रवतृषां तमापतन्तम् आसाद्य भगवान् मधुसूदनः निगृह्यपाणिना हस्तम् पातयामास भूतले पतितस्तश्च पदाक्रम्य मृगेन्द्र इव लीलया दन्तमुत्पाट्य तेनेभं हस्तिपांस्याहनद्धरिः मृतकं दीपविसृज्य दन्तपाळी समाविशन् अंसन्यस्तविषाणो सिं मदबिन्दोभिरङ्कितः विरूढस्वेदकणिकावदनां बृहो भवतिपयै बलदेवजनार्जनौ रङ्गं विवशतु राजन् गजदन्तवरायुधौ मल्लानाम् अशिनिर्विणाम् नरवरः श्रीणाम् स्वरो मृतिमान् गोपानाम् सज्जनोऽशताम् क्षितिभुजाम् सा सा स्वपित्रो शिशुः मृत्युर्भोजपते वीराड्विर्षाम् तत्त्वम् परम् योगिनाम् विष्णीनाम् परदेवतेति विदितो रङ्गम् गतशाग्रजः तम् कुल्यापीडम् दृष्ट्वा तावपि कंसो मनस्न्यपि तदा समुद्वी विजयनिप तौरेजतो रङ्गगतौ महाभुजौ विचित्रवेशाभरणस्रम् गम्बरौ यथा न तावुत्तम् अवेसधारिणौ मनः क्षिपन्तौ निरीक्षताम् नीक्षितावोत्तमपुरुषौ जना मञ्चस्थिता नागरन्दाष्टकानिप प्रहर्षभेदोऽकलितैक्षणाननाः प्रपुणतिप्ता नैने सदाननम् पिबन्तयुजतुर्भ्याम् चक्षुर्भ्याम् लिहन्त इव जिह्वया जिघ्रन्त इव नाशाभ्याम् शुष्यन्त इव बाहुवी उचौ परस्परम् ते वै यथाधिष्ठम् यथा सुतम् तद्रूप प्रागल्भ्य स्मरां मारिता इव एतौ भगवतः साक्षात् धरी नारायणस्य हि अवतीर्णाभिहांसेन ना वसुदेवस्य भेश्मरी एष वै किल देवक्याम् जातो नीतस्य गोकुलम् कालमेतम् वशम् गूढो ववृधे नन्दवेश्मरी पूतनानेन नितान्तं चक्रवातस्य दानवः अर्जुनौ गुह्यकेशीथेन कोण्डे च तद्विधाः गावसपाला एतेन दावाग्ने परिमोचिताः कालियोदमित सर्प इन्द्रस्य विमदकृतः सप्ताहमेकहस्तेन धितोद्री प्रवरोमुनाम् वर्षवातासनेभ्यश्च परित्रातम् च गोकुलम् गोप्योऽश्य नित्यमुदित हसितप्रेक्षणम् मुखम् पश्यन्तोऽपिशां सापान्तरन्ति स्माश्रमम् मुदाम् वदन्तनेन वंशोऽयम् जतो सु बहुविश्रुतः श्रियम् यशो महत्त्वम् च लप्स्यते परिरक्षितः अयं चाशागृज श्रीमान् रामकमलोचनः प्रलम्बो निहतो येन वचको ये बकादयः देनेष्वेवं ब्रमाणेषु तुर्येषु निन्दतत्सु च कृष्णरामौ समाभास्य चाळूरो वा हे नंदसुनो हे राम भवन्तो वीरसम्मतौ निद्यकुशलौ श्रुत्वा राजाहूतो दि प्रियम् राज्ञ प्रकुर्वन्त्य श्रेयो विन्दन्ति वै मनसा कर्मणा वाचा विपरीतम् अतोऽन्यताम् नित्यम् प्रमुदिता गोपावस्यपाला यथा स्फुटम् वनेषु मल्लयुद्धेन क्रीडन्तश्चारयन्तिगाः तस्माद्राज्ञ प्रियम् यूयम् वयम् च करवामहे भूतानि न प्रसीदन्ति सर्वभूतमयोनिपः तन्निसम्याब्रवीत्कृष्णो देशकालोचितं वचः निरुद्धमात्मनोऽभीष्टम् मन्यमानोऽभिनन्द्य प्रजाभोजपतेरस्य वयम् चापि वनेचराः कर्वाम् प्रियम् नित्यम् तन्न परमनुग्रह बालावयम् तुल्यबलैः क्रीडिष्यामो यशोचितम् भवेन्युद्धम् मा धर्मः श्सेन्मल्लशभाषदः चारुवाच न बालो न किशोरस्त्वम् बलस्य बलिनाम् वरः दीडये भोषतो येन सहस्रदिपसत्त्वभि तस्माद्भवद्भ्याम् बलिभिर्योधभ्यम् नानयोत्र वै नै विक्रम् वाष्णेन बलेन श्री श्रीमद्भागुते महापुराणे परं शां चयितायां प्रथमस्कन्धे पूर्वार्षे कुवल्यापीडों वधूनां त्रिचत्वारिंशोऽध्यायः